अथ द्वितीयोऽध्यायः ॐ वृत्तबालाकिर्हा नो च नो कार्य आससहोवाचा जातशत्रुम् काश्यम् ब्रह्मते ब्रवाणीति जनको जनक इति सहोवाच धार्यो येवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति सहोवाचा जातशत्रुर्मामैतस्मिन् संवधिष्ठा अधिष्ठा सर्वेषां भूतानां मूर्धाराजेति वा अहमेकमुपास इति सय एतमेवमुपास्ते तिष्ठा सर्वेषां भूतानाम् राजा भवति स हो वाचगा एवासौ चन्द्रे पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्रुर्माम् तस्मिन् संवधिष्ठा बृहन्पाण्डरवासा सोमो राजेति वा अहमेतमुपास इति स एतमेवमुपास्ते हर हर् हसुतः प्रसुतो क्षीयते सहोवाच गाज्ञो य एवासौविद्युदि पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्रुर्मामे तस्मिन् संवदिष्ठास्तेजस्वीति वा अहमेतमुपास इति स य एतमेवमुपास्ते तेजस्वीह भवति तेजस्वीहास्य प्रजा भवति सहोवाच गार्याय एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति सहोवाचा जातशकुर्मामेकस्मिन् सम्बलिष्ठाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते यते प्रजया पशो शर्णास्यास्माल्लोकात् प्रजोद्वर्तते सहोवाच गार्गोय एवायम् वायौ पुरुष एतमेवाहं ब्रह्मोपास इति सहोवाचा जातशत्रुन्नामैतस्मिन् संवलिष्ठा इन्द्रो वैकुण्ठोपराजितासेनेति वा अहमेतमुपास इति स य एतमेवमुपास्ते जिष्णुर्हा पराजिष्णुर्भवत्यन्यतस्त्यजायी सहोवाचनाज्ञाय एवायमग्नौ पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्रम् मामै तस्मिन् संवधिष्ठा विषासहिरिति वा अहमेतमुपास इति सय एतमेवमुपास्ते विषासहिल भवति विषासहिहास्य प्रजा भवति सहोवाच गवायम्सुपुरतमेवाहम ब्रह्मोपाशोवाचा सहो जात शुर्मास्म संष्ठा प्रतिपैरी वाहतवासमेस्ते प्रतिपरैनमुपगछति न प्रतिपमथो प्रतिपोस्मा जायते सौवाच गार्याय के वाय मादर्शे हम् ब्रह्मोपास इति सहोवाचा जातशत्रु मामे तस्मिन् संवधिष्ठा रोचिष्णुरिति वा अहमेतमुपास इति सज एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजाभवत्यरो यैः सन्निगच्छति सर्वाग्रस्तारति रोचते सहोवाच ग्याय एवायन्तं पश्चाच्छब्दो नो दीर्त्येतमे ्रह्मोपास इति सहोवाचा जातशत्रुर् मामेतस्मिन् संवधिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वेहैवास्मि लोक आयुरेति नैनम् पुराकालात् प्राणो जहाति सहोवाच गाद्यो येवायम् दिक्षु पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्रुर् मामेतस्मिन् संवदिष्ठा द्वितीयो नपग इति वा अहमेतमुपास इति स य एतमेवमुपास्ते द्वितीयवान् न भवति सहोवाच गाय एवायञ्छ्यायामयः पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्रुर्मामेतस्मिन् संवधिष्ठा मृत्युरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वज्ञेहैवास्मिल्लोक आयुरेदिनैनम् पुराकालान् मृत्युरागच्छति सहोवाच गार्गो य एवायमात्मनि पुरुष एतमेवाहम् ब्रह्मोपास इति सहोवाचा जातशत्वर्मामे तस्मिन् संवधिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्विह भवत्यात्मन्विनीहास्य प्रजा भवति भवत्या सः तूष्णीमासगार्ग्रः सहोवाचा जातशत्रुरेतावन् इत्येतावद्ध्ये त्रिनैतावता विदितम् भवतीति सहोवाचा जातशत्रुः प्रतिलो मञ्चैतद्यद्ब्राह्मणक्षत्रियमुपेयाद् ब्रह्ममे वक्ष्यतिव्ये वत्वाज्ञपयिष्यामेति तम् पाणावादायोक्तस्थौ तौ पुरुषज्ञे सुप्तमा जग्मृदुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाण्डरवासः सोम पेशं बोधया चकार चकारसहोक्तस्थौ सहोवाचा जातशत्रुर्यत्रैष एतत्सृप्तोऽभूद्येष विज्ञानमयः पुरुषः क्वैष तदाभूत् कुत एतदायादिति तरुहन मेने दार्यः सहोवाचा जातुत्रैष एतत्श विज्ञानम पुष्स्त प्राण विज्ञान विज्ञान एषंतरह आकाशस्तान यहाृतुरुषस्वीति प्राणो गृहता गृहतुत ्रोत्रंग मन सैस्वया चलती ते हास्का स्तुदेव महाराज भगवे महाब्राह्मण उदेव निगछति स यथा महाराजो जानपदा गृह स्वे जनपद यहा काम परीवर्ते मे वैश्य गृह स्वे शरीरे यथा कामम् परिवर्तते यदा सुषुप्तो भवति यदा न कस्यचन वेदहिता नाम नाड्योद्धा सप्ततिसहस्राणि हृदयात् ततम पुरी ततमभिः प्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरी ततिशेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिग्नीमानन्दस्य गत्वा शयि तैव मे वैषये तच्छेते स यथोन्ननाभिस्तू नोच्चरेद्यथाग्ने क्षुद्राभिस्तुलिङ्गा व्युच्चरन्त्येवमेवस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् यो ह वै शिशुज्ञे साधानज्ञे सप्रत्याधानज्ञे सस्थूणज्ञे सदामम् वेदसप्तहद्विषतो धातुर्यानवरुणध्ययं वावशिषुर्योऽयं मध्यमः प्राणस्तस्येदामेवाधानमिदं प्रत्याधानं प्राणस्थूणानन्दामा मेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षं लोहिण्यो राजयस्ताभिरेनग्निरुद्रोन्पायत्तोचया अक्षन्नापस्ताभिः पद्यन्यो या कनेन कातयादित्यो यत्कृष्णन्तेनाद्युक्लं ते नेन् रोधरयिणं वर्तन्या पृथिव्यन्पायत्ताद्योरुत्तरयाना स्यान्नं क्षीयते रेवं वेदा तदेश श्लोको भवत्यर्वाग्विलष्टमसऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपं तस्या सदर्षयः सप्ततीरे वागष्टमे ब्रह्मणा संविदामेत्यर्वाग्विलष्टमसऊर्ध्वबुध्न इति यशो विश्वरूपम् प्राणानेतदाह तस्या सत ऋषयः सप्ततीर इति प्राणा वा ऋषयः प्राणानेतदाह इमामेव गौतम भरद्वाजा वयमेव गौतमोऽयं भरद्वाज इमामेव विश्वामित्रदमदग्नि अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपभागेवर्वाचाह्यन्नमद्रतेर्ह वै मामै तद्य दत्रिरिति सर्वस्यार्ता भवति सर्वमस्य स्यान्नम् भवति य एवम् वेदा द्वे वावब्रह्मणो रूपे मूर्तम् चैवामूर्तम् च मर्त्यम् चामृतम् च यच्च सर्च्चत्यर्चा तदेतन्मूर्तै यदन्यद्वायोश्चान्तरिक्षात्रैतन्मत्यमेतत्स्थितमेतत्सत्तस्यीतस्य मूर्तस्य तस्य मत्यस्यीतस्य स्थितस्य तस्य सत एष रसो य एष तपति सतोेष रसः अथामूर्धम् वायश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्यन्तस्यैतस्यामोत्तस्यैतस्यामृतस्यैतस्य यत एतस्यत्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषस्त्यस्य एष रस इत्यचिदैवतम् अथा ध्यात्ममिदमेव मूर्तै यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश एतन्मत्यमेतत्स्थितमेतत्सत्तस्यैतस्य मूर्तस्यैतस्य मत्यस्यैतस्य स्थितस्यैतस्य अथामोत्तम् प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यदेतत्यन्तस्यैतस्यामोत्तस्यैतस्यामृतस्यैतस्य यत एतस्यत्यस्यैष रसो योऽयं दक्षिणेक्षन् पुरुषस्त्यस्य शेष रसः रस्य हैतस्य है पुरुषस्य रूपै यथा माहारजनं वासो यथा पाण्ड्वाविकै यथेन्द्रगोपो यथाज्ञर्चन् यथा पुण्डरीकै यथा सकृद्विद्युक्तज्ञे सकृद्विद्युक्ते बहवा अस्य श्रीद्भवति एवं आदेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्त्यथ सत्यस्य सत्य सत्यमिति प्राणा वै सत्यम् तेषामेष सत्यम् मैत्रेयीति होवाचयाज्ञवल्ल्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि अहन्त तेन या कात्यायम् ह्यान्तम् होवाच मैत्रेयीयं मयियं भगवः सर्वा पृथिवीवित्तेन पूर्णा स्यात्कथं तेनामृतास्यामिति नेति होवाच याज्ञवल्पा या यथैवोपकरणवताञ्जीवितं तथैव ते जीवितज्ञस्यादमृतत्वस्य च नाशास्ति वित्ते नेति साहोवाच मयित्रेयी येनाहन्नास्यां किमहं तेन कुर्यायैरेव भगवान् पेदतदेव मे ब्रूहीति सहोवाच याज्ञवल्यः प्रियावतारेण सति प्रियं भाषसखे ह्याश्वं व्याख्यास्यामि ते व्यातरक्षाणस्य तु सहो वाचन वा अरे पत्युःकामाय पत्य। पतिः भवत्यात्मनस्तु कामाय पतिः भवति न वा अरे भवत्यात्मनस्तु कामाय जाया भवति न वा अरे पुत्राणां कामाय पुत्रा प्रिया भवन्त्यात्मनस्तु कामाय वित्तस्य कामाय त्तं प्रियं भवत्यानस्तु कामाय प्रियं भवति न वा अरे ब्रह्मणः कामाय ब्रह्म अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात् ननस्तु प्रियं भवति न वा अरे प्रिया भवन्त्यात् कामाय लोकाः प्रिया भवन्ति न वा अरे देवानां कामाय रेवाः प्रिया भवन्त्यात् कामाय देवाः प्रिया भवन्ति न वा भूतानां कामाय भूतानि प्रियाणि भवन्त्यात् कामाय भूतानि प्रियाणि भवन्ति न वा सर्वस्य कामाय सर्वं प्रियं भवत्यात् कामाय सर्वं यं भवत्यात्मा वा अरे द्रष्टव्यश्रोतव्यो मन्तव्यो निध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनैरज्ञे सर्वं विहितम् ब्रह्म तं परादाद्यान्यत्रात्मनो ब्रह्म वेदक्षत्रं तं परादान्यत्रात्मनक्षत्रं वेदलोकास्तं पराधुर्योन्यत्रात्मनो लोकान् वेददेवास्तं पराधुर्यो यत्रात्मनो देवान् वेदभूतानि तं पराधुर्यान्यत्रात्मना भूतानि वेद सर्वं ं वरा दद्योऽन्यत्रात्मनः सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानि लग्ने सर्वैरयमात्मा स यथा दुन्दुभेर्हण्यमानस्य न बाह्याञ्चब्दाञ्चक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः स यथा शङ्खस्य ध्वायमानस्य न बाह्याञ्चब्दाञ्चक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्वस्य वा शब्दो गृहीतः स यथा वीणायै वाद्यमानायै न बाह्यान् शब्दाञ्चक्नुयाद्ग्रहणाय वीणायै च ग्रहणेन वीणा वा वा शब्दो गृहीतः स यथाग्रेधाग्नेरभ्याहितात् पृथग्भूमा विनिश्चरन्त्येवं वा अरेस्य महतो भूतस्य निःश्वसितमे तद्य ऋग्वेदो वेग सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदश्रोत्र सूत्राण्यख्यानां व्याख्यानान्यस्यैवैतानि निःश्वसितानि तानि स यथा सर्वासामभाज्ञे समुद्र एकाय नमेवज्ञे सर्वेषाग्स्पर्शानां त्वगेकाय नमेवज्ञे सर्वेषां गन्धानां नासिकैकाय न मे सर्वेषाग्ने रसानां जिह्वैकाय न मे वज्ञे सर्वेषाज्ञरूपाणां चक्षुरेकाय न वग्ने सर्वेषाग्ने शब्दान् श्रोत्रमेकाय नमेव सर्वेषाग्र सङ्कल्पानां मन एकाय नमेवज्ञ सर्वासां विज्ञानाग्रे हृदयमेकाय नमेवग्रे सर्वेषां कर्मणाग्रहस्तामेकाय नमेवज्ञ सर्वेषामानन्दानामुपस्थ एकाय नमेव सर्वेषां विसर्धाणां पायुरेकाय मे अज्ञ सर्वेषामधनां पादावेकायनमेवज्ञ सर्वेषां वेधानां भागे कायनम् स यथा सैन्धमखिल्य उदके इत्यरे ब्रवीमिति अोवाच याज्ञवल्क्यः सा अोवाच मैत्रे यत्रैव मा भगवानमो महन्न प्रेत्य संज्ञास्तीति सहोवाच अरेहं मोहं ब्रवीम्यलम्बा अर इदं विज्ञानाय यत्र यद्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरगे शृणोति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति यत्र भारस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत्तत्केन कं तत्केन कगे शृणुयात् तत्केन कमभिवदेत् तत्केन मन्वितरत्केन कं बिजानीयाध्येन विजानातितंकेन विजानाति विजानियादिति इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधुयष्टायमस्यां पृथि॒व्यां तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मग्ने शारीरस्तेजो मयोमृतमयः पुरुषो यमेव सयोमात्मे धममृतमिदं ब्रह्मेरग्ने सर्वम् श्रीमाहापः सर्वेषां भूतानां मध्वासामपाग्ने सर्वाणि भूतानि मधुयश्चाय मा स्वप्सुतेजो मयोमृतमयः पुरुषो यश्चायमध्यात्मज्ञे रैतसस्तेजो मयोमृतमयः पुरुषोयमेव संयोयमात्मेदमममममममममममृतमिदं ब्रह्मेदग्ने सर्वम् अयमग्नः सर्वेषां भूतानां मध्वस्याज्ञेस्सर्वाणि भूतानि मधुयश्चायमस्मिन्नग्नौ तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजो मयोमृतमयः पुरुषोयमेव स योयमात्मेदममममृतमिदं ब्रह्मेदग्ने सर्वम् अयं वायः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधुयष्टायमस्मिन् वायौ तेजोमयो मृतमयः पुरुषो यष्टायमध्यात्मं प्राणस्तेजोमयो मतमयः पुरुषोयमेव स योयमात्मेदममृतमिदं ब्रह्मेदग् सर्वम् अयमालित्यः सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधुयश्चायमस्मिन्नालित्येतेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मञ्चाक्षुषस्तेजो मयोमृतमयः पुरुषोयमेव स योयमात्मेदमममममृतमिदं ब्रह्मे लग्ने सर्वम् इमादिशः सर्वेषां भूतानि दिशाग्ने सर्वाणि भूतानि मधुयश्चायमासुदिक्षुतेजो मयोमृतमयः पुरुषो यश्चायमध्यात्मग्निः श्रोत्रः प्रातिश्रुतस्तेजो मयोमृतमयः पुरुषोयमेव सयोयमात्मेदममममममृतमिदं ब्रह्मेदग्ने सर्वम् अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधुयश्चायमस्मि घ्निष्टं रेतेजो मयोमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजो ब्रह्मेदग्ने सर्वम् इयं विद्युत् विद्युत्सर्वेषां भूतानां मध्वस्यै विद्युतः सर्वाणि भूतानि मधुयश्चायमस्यां विद्युदितेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मन्तैजसस्तेजोमयोमृतमयः पुरुषोयमेव सयोयमात्मे तममृतमिदं ब्रह्मेदग्ने सर्वम् अयज्ञस्तनयित्नुः सर्वेषाम् भूतानाम् मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधुर्यायमस्मिन् सनयित्नु तेजो मयोमृतमयः पुरुषो यष्टायमध्यात्मग्नेशाद्य सौवरस्तेजो मयोमृतमयः पुरुषोयमेव स योयमात्मेधममृतमिदम् ब्रह्मेदग्ने सर्वम् अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधुयश्चायमस्मिन्नाकाशे तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मग्ने हृद्याकाशस्तेजोमयो मृतमयः पुरुषोयमेव सयोऽयमात्मेदममममृतमिदं ब्रह्मे लग्ने सर्वम् अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधुयश्चायमस्मिन् धर्मे तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मन्धार्मस्तेजोमयोमृतमयः पुरुषोयमेव सयोयमात्मे दममृतमिदं ब्रह्मे लग्ने सर्वम् े सत्यज्ञे सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधुयश्चायमस्मिन् स सत्ये तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मज्ञे सात्यस्तेजोमयो मृतमयः पुरुषोयमेव सयोऽयमात्मेदममममममममममममृतमिदं ब्रह्मेदज्ञे सर्वम् इदं मानुषज्ञे सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधुयश्चायमस्मिन् मानुषे तेजोमयोमृतमयः पुरुषो यश्चायमध्यात्मं यमात्ने पुरुषोयमेव सयोयमात्मेतमममममृतमिदं ब्रह्मेदग्ने सर्वम् अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि ये मयो तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा ये तेजोमयोमृतमयः पुरुषोयमेव स योयमात्मेदमममममममममममममममममममममृतमिदं ब्रह्मेदग्ने सर्वम् सभा अयमात्मा सर्वेषां भूतानामधिपतिस्सर्वेषां भूतानाज्ञ राजा तद्यथा रथना भूतरथनेमौचारास्सर्वे समर्पिता एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवास्सर्वे लोकास्सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः इलम्बैरन्मद्भ्यम्ना सर्वणोऽश्विभ्यामुवाच तदेतदिशिः पश्यन्न वोचते तद्वान्नरासनये दे स उद्रमाविशृणोमि कन्यचुर्नवृष्टिम् दद्भ्यह्महयन्मध्वा सर्वणो वामश्वस्य शीर्ष्णा प्र इदम्बै तन्मधुरद्भ्यम् माथर्वणोऽश्विभ्यामुवाच तदेतदिशिः पश्यन्न रोचते माथर्वणायाश्विनादधी चेष्वज्ञेश्वरः प्रत्यैरयतम् स वाम् मधुप्रवोचधृता यन्त्वाष्ट्रै यद्दस्रावपि कक्ष्यम् वामिति इदम् वैतन्मधुदद्भ्यङ्गाथर्वणाश्विभ्यामुवाच तदेतदृशिः पश्यन्न वोचते पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुरः सवृक्षी भूत्वा पुरः पुरुष आविशदिति स वा अयम् पुरुषः सर्वासु पोर्षु पुरुषयो नैनेन ना किञ्च नानावृतम् नैनेन ना किञ्च ना इदम् वैदन्मधुदध्यम् माथर्वणा श्विघ्रामुवाच तदेतदृशिः पश्यन्न वोचते रूपज्ञे रूपम् प्रतिरूपो बभूव रूपं प्रति इन्द्रो मायाभिः पुरुप ईयते युक्ता ह्यस्य हरयः शतादशेत्ययं वै अथ अग्नेशः पौतिमाश्च गौपवनात् द्वौ पवनः पौतिमा स्यात् पौतिमाश्च गौपवनात् द्वौ पवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकार्च गौतमः आग्निवेश्यादाग्निवेश्यशान्लिल्या चानभिम्लाता चानभिम्लात आनभिम्लाता दानभिम्लात आन बिम्लाता दानभिम्लातो गौतमाद् गौतमः सैतव प्राचीनयो ज्ञाभ्याग् सैतव प्राचीनयो गौ पाराशर्यात् पाराशर्यो भारद्वाजा भारद्वाजाच्च गौ चौतमो भारद्वाजा भारद्वाज पाराशरिया पाराशर्यो वैजवापाय नैजवापायय न कौशिकाय ने धृतकौशिका धृतकौशि पाराशरियाय पाराशरियाय पाराशरिया पाराशर्यो झा कम्यातु कन्या आसुरायणच्चासुरायण स्त्रीवणे स्त्रणि रौपजने रौपजनधन रासुरे रासुरी भारद्वाजा भारद्वाज आेया दे मेट गौतमा गौतमो गौतमा गौतमो शांडिलिल्यशौरिया कैशौर्य का कुमर हिता कुमारी गाला, गाला दी कौंडि विदर्भे कौण्डिन्यो वत्सनपातो बाभ्रवाद्वत्सनपाद्बाभ्रवः पथः सौफलात् पन्थासौभरो या स्यादाङ्गिरसादयास्य आङ्गिरस आभूते स्वाष्ट्रादाभूति स्वाष्ट्रो विश्वरूपात् स्वाष्ट्राद्विश्वरूप स्वाष्ट्रोऽश्वभ्यामश्विनो दधी च अथर्वणाद्भ्यङ्गाथर्वणोऽधर्वणो ैवान् धर्वान् देवो मृत्युः प्रार्थ े सनात् प्रत्यः प्राद्भग्ने सनः क्लद्भग्ने सनात् क्लद्भग्ने सन एकऋषेरेकऋषर्विप्रजित्तेर्विप्रजित्यष्टेर्व्यष्टिः सनारोः सनारः सनातनात् सनातनः सनगात्सनगः परमेष्ठिनः नमः वो इति द्वितीयोऽध्यायः